हृदयकमलमध्ये राजितम् निर्विकल्पम् सदसदखिलभेदामेकस्वरूपम् प्रकृतिविकृतिशून्यम् नित्यमानन्दमूर्तिम् विमलपरमहंसम् रामकृष्णं भजामः निरुपममतिसूक्ष्मं निष्प्रपञ्चं निरेहं गगनसदृशमीशम् सर्वभूताधिवासम् त्रिगुणरहितसचे ब्रह्मरूपं वरेण्यम् विमलपरमहंसं रामकृष्णं भजामः वितरितुमवतीर्णम् ज्ञानभक्ते प्रशान्ते प्रणयगलितचेतं जीवदुःखासहिष्णुं धृतसहजसमाधिं चिन्मयं कोमलाङ्गं विमलपरमहंसम् रामकृष्णं भजामहं विमलपरमहंसम् Ram Krishnam Adama